ॐ नेति नेतिवाक्यावयसे नमः ॐ नरशृङ्गोपमजगत्साक्षिणे नमः ॐ नित्यचिद्घनाय नमः ॐ निष्प्रपञ्चपराय नमः ॐ निष्प्रपञ्चग्रहाय नमः ॐ निष्प्रपञ्चाघननाकस्य सूचकाय नमः ॐ निर्लेपाय नमः ॐ निष्प्रपञ्च छत्रयुक्ताय नमः ॐ निष्प्रपञ्चासनस्थिताय नमः ॐ निष्प्रपञ्चमहामालाय नमः ॐ निष्प्रपञ्चात्मचन्दनाय नमः ॐ निष्प्रपञ्चप्रभूषणाय नमः ॐ निष्प्रपञ्चसुताम्बूलाय नमः ॐ निष्प्रपञ्चसुखस्थिराय नमः ॐ निष्प्रपञ्च महद्दाम्ने नमः ॐ निष्प्रपञ्च शिवाकाराय नमः ॐ निष्प्रपञ्चजलस्नानाय नमः ॐ निष्प्रपञ्चकतर्पणाय नमः ॐ निष्प्रपञ्च महामन्त्रिणे नमः ॐ निष्प्रपञ्चजपाय नमः ॐ निष्प्रपञ्चगजारूढाय नमः ॐ निष्प्रपञ्चाश्ववाहनाय नमः ॐ निष्प्रपञ्च महाराज्याय नमः ॐ निष्प्रपञ्चयुताधिमते नमः ॐ निष्प्रपञ्च महादेवाय नमः ॐ निष्प्रपञ्चात्मभावनाय नमः ॐ निष्प्रपञ्च महानिद्राय नमः ॐ निष्प्रपञ्चस्वभावकाय नमः ॐ निष्प्रपञ्च जीवात्मने नमः ॐ निष्प्रपञ्चकलैवराय नमः ॐ निष्प्रपञ्चपरिवाराय नमः ॐ निष्प्रपञ्चनित्योत्सवाय नमः ॐ निष्प्रपञ्चककककककककल्याणाय नमः ॐ निष्प्रपञ्चकतर्पणाय नमः ॐ निष्प्रपञ्चकाराध्याय नमः ॐ निष्प्रपञ्चकविचारणाय नमः ॐ निष्प्रपञ्चविहाराध्याय नमः ॐ निष्प्रपञ्चप्रदीपाय नमः ॐ निष्प्रपञ्च प्रपूर्णाय नमः ॐ निष्प्रपञ्चारिमर्दनाय नमः ॐ प्राणानन्दैकबोधनाय नमः ॐ प्रत्यगेकैकरसाय नमः ॐ प्रज्ञानाय नमः ॐ प्रसन्नाय नमः ॐ प्रकाशाय नमः ॐ परमेश्वराय नमः ॐ परमाय नमः ॐ परमात्मने नमः ॐ प्रणवान्तर्गताय नमः ॐ परिपूर्णाय नमः ॐ परापरविवर्जिताय नमः रहिताय नमः ॐ प्रज्ञाय नमः ॐ प्रज्ञानगणाय नमः ॐ प्रज्ञानाय नमः ॐ परमानन्दाय नमः ॐ पश्यते नमः ॐ पुरुषोत्तमाय नमः ॐ पराय काष्ठाय नमः ॐ परगुरवे नमः प्रत्यक्षाय नमः ॐ परमाद्भुताय नमः ॐ प्रज्ञानाय नमः ॐ परस्मैज्योतिषे नमः ॐ पशुपाशविमोचनाय नमः ॐ पराकाकाशाय नमः ॐ पशुपतये नमः ॐ पञ्चनदेश्वराय नमः ॐ परिपूर्णज्ञानाय नमः ॐ पञ्चनदस्वरूपिणे नमः कोशस्वरूपाय नमः ॐ पूर्णानन्दैकविग्रहाय नमः ॐ परब्रह्मणे नमः ॐ परशिवाय नमः ॐ परप्रेमास्पदाय नमः ॐ प्रत्यक्षितये नमः ॐ परस्मै धाम्ने नमः ॐ परापरज्ञानशूराय नमः ॐ पञ्चब्रह्मस्वरूपिणे नमः पशमनाय नमः ॐ परमार्थज्ञानाय नमः ॐ प्रसन्नाय नमः ॐ परदैवताय नमः ॐ पञ्चावस्थासाक्षिवर्जिताय नमः ॐ पञ्चप्रेतासनाय नमः ॐ पञ्चप्राणस्वरूपाय नमः ॐ प्रणवार्थस्वरूपिणे नमः क्षिणे नमः ॐ प्ररुढाय नमः ॐ परत्रयविलक्षणाय नमः ॐ पञ्चेन्द्रियस्वरूपाय नमः ॐ पञ्चावस्थाविलङ्घिताय नमः ॐ प्रत्यक्परोक्षरहिताय नमः ॐ पञ्चकोषादिसाक्षिणे नमः ॐ पञ्चकोशाधिष्ठानाय नमः ॐ पञ्चकोशान्तरस्थिताय नमः ॐ परमार्थैकवेद्याय नमः ॐ पुण्यापुण्यविवर्जिताय नमः ॐ परिशुद्धाय नमः ॐ परब्रह्मणे नमः